गणेशपुराणं क्रीडाखण्डम् अध्यायं सेवेण्टी नैन् क उवाच निर्जितान् सिन्धुना देवां ज्ञात्वा शम्भुर्निजस्थलाद सप्तकोटिगणाकीर्णस्त्रिसन्ध्याक्षेत्रमभ्यगाद स्वाहा स्वधाषत्कार वेदाध्ययनवर्जिताः निवसन्ति भयात्सिन्धोर्गौतमाद्या महर्षयः दृष्ट्वा ते त्र्यम्बकम् देवं परिवृःसमन्तदः यथा तीर्थं विप्रवरा बालका जननीं प्रणम्यतं प्रपूज्य इव प्रोचुर्धन्यतमा वयम् अनुष्ठानं दृश्यर्जन्मधन्यं ज्ञानं यदो हरः अगोचरो दृष्टिगतो दण्डकारण्यमागधः दुरितं विलयं यादं पुण्यं च फलितं महद इदानीं न च नो दृष्टे देवे भविष्यति यथोदिदे दिवानाथे न ध्वान्दं दृश्यते क्वचित् तदोब्रवीन्महादेवः सर्वां स्थान्मुनिपुङ्गवान् शिव उवाच सिन्धुना क्रामित्रैलोक्यं देव देवविनिग्रहः मुनीनामपि hmm. केषाञ्चित्ते न खिन्नं मनो मम विश्रान्तिं न लभेस्ताने तदोऽहमिह चागदः भवतां दर्शनेनाहं परितुष्टो मुदान्वितः इदानीमवकाशं सपरिवारस्य दीयताम् अधिपुण्ये नवः प्राप्तं दर्शनं पापनार्शनं यत्र परं ध्यानम् करिष्ये जगदीषिदुः क उवाच इति शूलिव च श्रुत्वा प्रोचुः सर्वे महर्षयः सर्वेश्वरस्य ते देवदास्थानस्य को कल्पद्रुमस्य कः कामः केनासौ परिपूर्यते क्षीरार्णवतृषा वा पल्लवेन गमिष्यति तवैव रूपं पृथिवी तव सर्वदा त्वमीश सर्वलोकस्य यथेच्छसि तथा दर्शयामसुरपदे सुन्दरं तव चाश्रमं नानावृक्षलदाकीर्णं रम्यवापी सरोजलम् यतोभिपक्षिभिर्युक्तं खनचायं सुविस्मृतं स्वादु कन्दभलोपेदं मृदुकासमन्वितं यदि चात्र वसत्र्यक्षपरिपालय नोऽखिलान् क उवाच तत्रावसन्महादेवो गङ्गौरी गणैर्युदः कैलासादधिगमेने मुनेराश्रममण्डलम् तदाश्रयेण ते सर्वे गौतमाद्या महर्षयः चेरुस्तपांसि विविधान्याः संस्थे विगदज्वराः शिवोऽपि तप आरेभे गङ्गागौरिसहायवान् तदो गणाश्च सामग्रीं तस्य चक्रुर्महात्मनः कस्मिंश्चित् समये गौरी पृच्छति स्म सदा शिवं त्वमेककर्ता हर्ता पादा विश्वस्य शङ्कर अष्टमूर्तिर्मूर्तिस्त्वं सर्वश्रभावदः सर्वश्रेष्ठतमस्त्वं च सर्वेषां सर्वकामदः अष्टानां कर्मणां देवफलदाखिलार्थविद त्वत्श्रेष्ठतमकोऽस्ति यं त्वं ध्यायसितं वद देवाश्च मुनयो नागाः यक्ष मानुषराक्षसाः यत्सत्तयाखिलं विश्वं त्वत्तः श्रेष्ठतमस्तुकः त्रयस्त्रिंशत्कोटिदेवे पूज्यसे सिद्धसाधकैः क उवाच यदि तद्वचनं श्रुत्वा शिवो वचनमब्रवीद शिव उवाच सम्यक् त्वया देवि तुष्टो वाक्येन तेन के शृणुष्वकिता देवि विस्तरेण ब्रवीमि ते अद्यापि न कथं ज्ञातोऽयं ध्यायामि सुरेश्वरी तत्स्वरूपं निरूपिष्ये तव प्रीतिचिकीर्षया लोकानामुपकाराय संसारोत्तारणाय च यो देवः सर्वभूतेषु गूढश्चरदि विश्वकृद यो नन्दशीर्षानन्दश्रीरनन्दचरणस्वराट अनन्दश्रुतिनेत्रश्चानन्दनामागुणाधिगः अनन्दरूपी यो देवो वेदकर्ताखिलार्थदः योऽनन्दशक्तिविश्वात्मानुपमे यः पुरातनः नोपमाशेषचन्द्राब्धिव्योम्नाम् नारायणस्य च भारतस्य च वेदस्य व्यासस्य च मुनेरपि यदो जीवा अनन्ताश्च जायन्तेऽम्बुमुचो यथा जलधारा यथाग्नेर्वा विस्फुलिङ्गा भवन्ति हि ब्रह्मा विष्णुशिवादीनां गुणत्रयप्रदः प्रभुः सृष्टिपालनसंहारानाज्ञापयदतैरिह तदो गुणविभागेन गणेश इदि पप्रथे तमिमं परमात्मानं परात्परतरं विभुम् गुणेशमनिषन्ध्याये परब्रह्मस्वरूपिणम् गौर्य उवाच तुष्टासम् तव वाक्येन प्रत्ययो मे कथम् भवेद् तं गुणेशं कथं साक्षात्करोमि करोमिच भजामिच तमोपायं तमुपायं वद विभो यदि तुष्टोऽसि शङ्करक उवाच इति तस्या पुनरूचे श्रुत्वा पुनरुचे महेश्वरः शिव उवाच एकनिष्ठतया यावत्तपसाराधितो न ते तावत्प्रत्यक्षदां देवि कथं यास्यादि स प्रभुः देव्युवाच कथं मया तपः केनोपायेन वा विभो यदि तुष्टोऽसि देवेश वदसत्यं ममानख क उवाच एवं तदादरम् बुद्ध्वा प्रोवाच गिरिजां हरः येन तस्या भवेत्पीदो गुणेशो गुणवल्लभः एकाक्षरमनुं तस्यै ददौ सम्यक् कुरु तपस्ततस्तुष्ठो भवेद्विभुः साक्षात्कारम् गुणे शस्ते प्रदास्यदि न संशयः तदैव सा नमस्कृत्य गिरीशं हृष्टमानसा जगामतपसे गौरी मन्त्रध्यानपरायणा जीर्णापुरादुत्तरेदु लेखनादिमनोहरम् इति श्रीगणेशपुराणे क्रीडाखण्डे गौरी मन्त्रप्रदानं नाम नवसप्ततितमोऽध्यायः ओ